तत्कर्म कुरु मे याजवितराम्यर्बुदं गवां तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् गुर्वर्थ इति चाकाममुपयाजमचोदयत् याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै स च पुत्रो महावीर्यो महातेजा महाबलः ईशते यद्विधो राजन् भविता ते तथाविधः भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा प्रेहि मां राज्ञि पृषतिमिथुनं त्वामुपस्थितम् कुमारश्च कुमारी च पितृवंशविवृद्धये राज्ञुवाच अवलिप्तं मुखं ब्रह्मन् दिव्यान् गन्धान् बिभर्मि च सुतार्थेनोपलब्धास्मी तिष्ठया च मम प्रिये याच उवाच याजेन क्षपितं हव्यमुपयाजाभिमन्त्रितं कथं कामं न सन्दध्यात् सा विप्रेहि तिष्टवा ब्राह्मण उवाच एवमुक्त्वा तु याजेन हुते हविषि संस्कृते उत स्थौ पावकात्तस्मात्कुमारो देवसन्निभः ज्वालावर्णो घोररूपः किरीटी वर्मचोत्तमं बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः तेन च तदा ततः प्रणेदुः पञ्चालाः प्रकृष्टाः साधु हर्षाविष्टांस्तपश्चैतान् नेयं सेहे वसुन्धरा भयापहो राजपुत्रः पाञ्चालानां यशस्करः राज्ञः शोकापहो जात एष द्रोणवधाय वै इत्युवाच खेचरं तदा कुमारी चापि पांचाली वेदी मध्यात्समुत्थिता सुभगा दर्शनीयाङ्गी स्वत्सितायतलोचना श्यामा पद्मला साक्षी नीलकुंजितमूर्धज ताम्रतुनखी सुभ्रूश्चारुपीन पयोधरा